गणेशपुराणम् उपासनाखण्डम् अध्यायं ट्वेण्टि एय् ब्रह्मोवाच ततो रुक्माङ्गदोपश्यदृशिं वाजग्नवीं शुभं मुकुन्दां तस्य पत्नीं च स्निग्धमञ्चुलभाषिणीम् अधिश्रान्तो नरपतिर्नमश्चक्रे उभावपि तस्मिन्मुनौ गदे स्नातुं ययाचे नृपसत्तमः माधुर्मुकुन्दे मे देहि शीतलं जलमुत्तमं विना जलं मम प्राणा गमिष्यन्ति यमक्षयम् आकर्ण्यतस्य तस्य वाचं सा जगादमदनातुरा त्वादृशं पुरूषं क्वापि मारादप्यधिसुन्दरं न देवेषु न नागेषु यक्षगन्धर्वपुञ्जयोः पश्यामि चारुसर्वाङ्गं मदे मदेमे हृदयं त्वयि अत्यासक्तं त्वदधरामृतपाने च देहि तद मुनिरुवाच व्यलीकं सदुश्रुत्वैव श्रान्तत्वाद्भृषदुःखित तिलोत्तमोत्तमां तां स जितेन्द्रियतया जगौ त्यज प्रौढिं न मे चित्तम् पारदार्यं विगर्हिते विनायकप्रभावेण सकृतं नैवात्र कर्हिद न जलं पदुमिच्छामि त्वया दत्तं सुदुष्टया ऋषेराश्रम इत्येवं यादो यास्य इदो शुभे तं गन्तुमुद्य दम् धृत्वा ब्रवीवद्धदातुरा मुकुन्दो वाच बलात्कारेण योऽन्यस्य स्त्रियं दर्शितुमिच्छति स एव नरकं यादिनः कृते त्रेदायुगे ब्रह्मस्त्रीणां स्वातन्त्र्यमभ्यधाद न करोषि यदा वाक्यं तदा भस्म भविष्यसि अथवा राज्यविभ्रष्टं करिष्ये वनचारिणं मुनिरुवाच इत्युक्त्वा धावमाना सा काममार्गणपीडिता रिंगयामसुचुब वदनम हठाद तदोस्तां तो बलाचिक्षेप दूर मूर्चिदीद भूमौ रं मा दा। उधि तं तदा परदार विरक्तधी महाभागे मुनि विवेकिनी रुक्मादो महात्वेकिंसिमनो य भवद न मे मनलेक्वा युषेन्महो दराता ते नं शुषाता ययासंकष्टमगमं तथा त्वं कुष्ठभाग्भव यतस्ते वज्रात्सारभूतं न च धृतम् इत्थं वदतीं तां राजा निर्भ्य बहुधा तदः त्वरया निर्गतस्तस्मादाश्रमाद् भृशदुःखितः स्वं ददर्शशरीरं सश्वेदं बकशरीरवद कुष्ठरोगयुधं कान्त्याहीनं च भृशकुत्सितं चिन्तार्णवेददा मग्न इदमाह गजाननं किमपरार्थं मया प्राप्तः कथं नु समागमं त्वया सिद्धिपदे दुष्टाः संवर्धिता भृश्यम् अवताराश्च साधूनां रक्षणाय बिभर्षिः इयं न नाशिदा दुष्टाः कथं मम शरीरं तत् काञ्चनस्पर्धिसुन्दरम् इवामवस्थां सम्प्राप्तकेन वा दुष्टकर्मणा तव भक्ति यथा पूर्वं सदा कुर्वे यथा विधि त्वदन्यं नैव शरणं यामि नाथगजानन नेदं शरीरं वक् <Sess> ं वा दर्शयिष्ये जनं प्रति प्रायोपवेशनेनेदं शोषयिष्ये कलेवरं निश्चित्यैवं नरपधिरासन्यग्रोधसन्निधौ भृत्या इतस्ततो धावन्नेक्षन्ते स्म चतं नृपं प्रवृ यां निशायां च जग्मुस्वं स्वं निकेतनं स्वामीसेवकयोर्जादा गतिश्चक्राह्वयोरिव इति श्रीगणेशपुराणे उपासनाखण्डे प्रायोपवेशनं नामाष्टाविंशतितमोऽध्यायः ओ